अथ षष्ठोऽध्यायः वैशम्पायनुवाच सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात् परम् प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः युधिष्ठिर उवाच भगवन्न्यमाहरितम् यथावद्धर्म निश्चयम् यथा शक्ते यता राजभिथ कार्यं पुरा वैकन्न संशय कृतं कृतम हेतुमदव वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः वैशम्पायनुवाच एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च मुहूर्तात् च दृष्ट्वा लोकतरं नारदम् उपासीनो युधिष्ठिर अपृच्छत् राजमध्ये महाद्युतिः युधिष्ठिरवाचा भवान् संचरते लोकान् सदा नानाविधान् बहून् ब्रह्मणा निर्मितान् पूर्वम् प्रेक्षमानो मनो ईदृशी भवता काचिद् द्रष्टपूर्वा सभा क्वचित् इतो वा श्रेयसी ब्रवृच्छतः वैशंपायन वाचा नारदस्तस्य धर्मराजस्य भाषितम् पाण्डवम् प्रत्युवाचेदम् स्मयन्मधुरया गिरा नारदवाचा मानुषेषु न मेताता दृष्टपूर्वा न च श्रुता सभामणिमयी राजन्यथेयं तव भारता सभां तु पितृराजस्य वरुणस्य च धीमतः कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमां दिव्या दिव्यैरभिप्रायैरुपेतां इर विश्वरूपिणीम् देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः जुष्टा मुनिगणैः शान्तैर्वेदयज्ञैश्च दक्षिणैः यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभा नारदेनैव मुक्तस्तु धर्मराजो युधिष्ठिरः प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः नारदं प्रत्युवाचेदम् धर्मराजो महामनाः सभाः कथयता सर्वाः श्रोतुमिच्छामहे वयम् किं द्रव्यास्ताः सभा ब्रह्मन् किं विस्ताराः किमायताः पितामहं चकेतस्यां सभायाम् पर्युपासते वासवं देवराजं च यमं वैवस्वतं च के वरुणं सभायां पर्युपासते एतत् सर्वं यथा न्यायं ब्रह्मर्षे वदतस्तव एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत क्रमेण लोकपालसभाख्यानपर्वणि युधिष्ठिरसभाजिज्ञासायां षष्ठोऽध्यायः